मार्कण्डेयपुराणम् अध्यायं फोर्टी नैन् क्रौस्तुकिरुवाच अर्वाक्स्त्रोत्तस्तु कथितो भवदा मानुषः ब्रह्मन् विस्तरदो ब्रूहि ब्रह्मा समसृजद्यथा यथा जवर्णान्न सृजद्यद्गुणाश्च महामदे यच्च येषां स्मृतं कर्म विप्रादीनां वदस्व तद मार्कण्डेय उवाच ब्रह्मणसृजदः पूर्वं सत्याभिध्यायिनस्तथा मिथुनानां सहस्रन्दु मुखात् मुखात्सोधा सृजन्मुने जादास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ता स्वतेजसः सहस्रमन्यत्वक्षस्थो मिधुनानां ससर्जह ते सर्वे रजसोद्रिक्ता शुष्मिणश्चाप्यमर्षिणः ससर्जान्यदे सहस्रन्दुद्वन्द्वाना मुरुतः पुनः रजस्तमोभ्यामुद्रिक्ता इहा शीलास्तु ते स्मृताः पद्भ्यां सहस्रमन्यच्च मिथुनानां ससर्जः उद्रिक्तास्तमसा सर्वे निःश्रीकाक्ष्यल्पचेतसः ततः संहर्षमाणास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः अन्योन्यहृत्याविष्टा मैथुनायोपचक्रमुः ततः प्रभृतिकल्पेऽस्मिन् मिथुनानां हि सम्भवः मासि मास्यार्तवं यत्तु न दास्यतु योषितां तस्मात्तदा न सुशुभु सेवितैरपि आयुषोन्ते प्रसूयन्ते मिथुनान्येव ताः सकृद ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः ध्यानेन मनसा तासां प्रजानां जायते सकृद शब्दादिर्विषयशुद्धः प्रत्येकं पञ्चलक्षणः इत्येषा मानुशी सृष्टिर्या पूर्वं वै प्रजापदेहे तस्यान्यो वाय सम्भुदा यैरिदम्भुरिदं जगद सरित्सरसमुद्रांश्च सेवन्ते पर्वतानवि तास्तदा ह्यल्पशीतोष्णा युगे तस्मिंश्चरन्ति वै तृप्तिं स्वाभाविकीं प्राप्ता विषयेषु महामदे न तासां प्रतिखादोऽस्ति न ना द्वेषो नापि मत्सरः पर्वतो सर्वशः ता वै नित्यमुदितमानसाः पिशाचोरकरक्षांसि तथा मत्सरिणो जनाः पशवः पक्षिणश्चैव नक्रा मत्स्यासरीसृपाः न मूलफलपुष्पाणि नार्तवा वत्सराणि च सर्वकालसुखकालो नात्यर्थं कर्म शीतदा कालेन गच्छता तेषां चित्रात् सिद्धिरजायत ततश्च तेषां पूर्वाह्ने मध्याह्ने च वितृप्तता पुन तथेच्छतां तृप्तिरनायासेन सा भवद इच्छतां च तथायासो मनसः समजायद अभां सौक्ष्म्यं तदस्ता सां सिद्धिर्नाना रसोल्लसा चैवान्या सर्वकामप्रदायिनी असंस्कार्यैश्चरीरैश्च प्रजास्तास्थिरयौवनाः तासां विनादु जायन्ते मिथुनाः प्रजाः समं जन्म च रूपं म्रियन्ते तुल्यरूपायुष सर्वा अधमोत्तमदां विना तत्वारिदुसहस्राणि वर्षाणां मानुषाणि तु आयुः प्रमाणं जीवन्ति न च क्लेशाद्विपत्तयः सर्वशः कालेन गच्छता नाश्यमुपयान्ति यद्धा प्रजाः तथा ताक्रमशो नाश्यं सर्वत्र सिद्धयः तासु सर्वासु नष्टासु नभसप्रच्युता नराः प्रायशकल्पवृक्षास्ते सम्भूता गृहसंज्ञताः सर्वे प्रत्युपभोगाश्च तासां तेभ्यः प्रजायदे वर्तयन्ति स्म तेभ्यस्तास्त्रेदायुकमुखे तदा तदकालेन वैरागस्ताः सामाकस्मिको मासि मास्यार्तवोत्पत्त्या गर्भोत्पत्तिः पुनः पुनः रागोत्पत्त्या वृक्षास्ते गृहसञ्ज्ञिताः ब्रह्मन्नन्व परेषान्तु पे दुःशाखा महीरुहां वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च तेष्वेव जायते तेषां गन्धवर्णरसान्वितम् अमाक्षिगं महावीर्यं पुटके पुटके मधु तेन वावर्तयन्ति स्म मुखे ततःकालान्तरेणैव पुनर्लोभान्वितास्तुताः वृक्षांस्ताः पर्यगृह्णन्द मम त्वाविष्टचेतसः नेश्युस्तेनापचारेण ते पितासां महीरुहाः तदोद्वन्द्वान्यजायन्ते षुण्मुखानि वै तास्तद्वन्द्वोपघादार्थं चक्रुः पूर्वं पुराणि तु मरुधन्वशु दुर्गेषु पर्वतेषु दरीषु च संश्रयन्ति च दुर्गाणि वार्क्षं पार्वतमौदकम् कृत्रिमञ्च तथा दुर्गं मित्वा मित्वात् मानार्तानि प्रमाणानि तास्तु पूर्वं प्रचकृरे परमाणुः परं सूक्ष्मं त्रशरेणुर्महीरजः बालाग्रञ्चैवलिक्षां च यूपां चाधयवोदरम् मादष्टगुणान्याहुर्यवानष्टौ तथाङ्गुलं षडङ्गुलं पदं तच्च विदस्तेर्द्विगुणं स्मृतं द्वे विधस्ती तथा हस्तो भ्राह्म्यतीर्थादिवेष्टनः चतुर्हस्तं धनुर्दण्डो नाडिकार्युगमेव च धनुषां द्वे सहस्रेदु गव्यूदिस्तच्च दुर्गुणं प्रोक्तं च योजवनं प्राज्ञैः सङ्ख्यानार्थमिदं परम् चतुर्नामधदुर्गाणां स्वसमुद्धानित्रिणीतु चतुर्थं कृत्रिमं दुर्गं ते चक्रुर्यत्नतस्तु वै पुरं चेटकञ्चैव तद्वद्रोणीमुखं द्विज शाखानगरकञ्चापि तथा कर्वटकं ग्रामं सघोषविन्यासं तेषु चावसथान् पृथक् सोत्सेधवप्रकारञ्च सर्वतः परिखावृतं योजनार्थार्थविष्कम्भ मष्टभागायदं पुरं प्रागुदप्रवणं शस्तं शुद्धवंशबहिर्गमं तदर्धेन तथा खेडं तत्पादेन च कर्वटं न्यूनं द्रोणीमुखं तस्मात् दन्तभागेन चोच्यते पुरं नगर कर्वडमुच्यते शाखानगर पञ्चान्यन्मन्त्रिसामन्तभुक्तिमद तथा शूद्रजनप्राया स्वसमृद्धिकृषिबलाः भोग्य भूमध्ये अन्यस्मान् नगरादेर्या कार्यमुद्दिश्य मानवैः क्रियते वसदिसावै विज्ञेया वसतिर्नरैः दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बलि ग्रामयेवद्रमीसंज्ञो राजवल्लभसंश्रयः शकारूढ़ब बाढ्च गोपाल विना गोसमूह ये छा भूमिकेदन तय नगरादी वा साधमात्मन निकेतना चक्रुरावसा वै गृहाकारा यथा पूर्वं तेषामासन्नहीरुहाः तथा संस्मृत्य तत्सर्वं चक्रुर्वेश्मानि ताः प्रजाः वृक्षस्यैवं गदा शाखास्तथैवञ्चापरी गताः तद्वच्छाखास्प्रचक्रिरे या शाखाकल्पवृक्षाणां पूर्वमासन्द्विजोत्तमता एव शाखागेहानां शालात्वं तेनतासुतद तास् कृत्वा द्वन्द्वोपखादन्ते वार्तोपायमचिन्तयन् नष्टेषु मधुना सार्धं कल्पवृक्षेष्वशेषतः विशादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः तदप्रादुर्बभौतासां सिद्धिस्त्रेदा मुखे तदा वार्तास्वसाधिता ह्यन्या वृष्टिस्तासां निकामतः तासां वृष्ट्युदकानीह यानि निम्नगदानि वै वृष्ट्या वरुध्यैरभवत्स्रोधकादानि निम्नगाः ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले तदो भूमेश्च संयोगा दोषध्यस्तास्तदा भवन् अभालकृष्टाश्चानुक्ता ग्राम्यारण्याश्च दुर्दश ऋदुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे प्रादुर्भावस्तुत्रेदाया माद्योयमौषधस्य तु तेनौषधेन वर्तन्ते प्रजास्त्रेदायुगे मुने रागलोभौ समासाद्य प्रजाश्चाकस्मिकौ तदा तदस्ताः पर्यग्वह्नन्द नदीक्षेत्राणि पर्वदान् वृक्षगुल्मौषधीश्चैवमात्मन्यायाद्यथा बलं तेन दोषेण तानेषु रौषध्यो मिषतां द्विज अग्रसद्भूर्युगपत्तास्तदौषद्भ्यो महामदे पुनस्तासु प्रणष्टासु विभ्रान्तास्ताः पुनः पुनः ब्रह्माणं शरणं जग्मुः क्षुधार्ताः परमेष्ठिनं स चापि तदाग्रस्तां वसुन्धरां वत्सं कृत्वा सुमेरुन्धुदुदोह भगवान्विभुः भगवान् गौस्तदा तेन शस्यानि पृथिवीतले जिरेतानि बीजानि ग्राम्यारण्या पुनः ओषध्यः फलपाकान्तागणाः सप्तदशा स्मृताः व्रीहयश्च यवाश्चैव गोधूमा अनवस्तिलाः प्रियङ्गवो ह्युदाराश्च कोरदोषा सचीनकाः माषामुद्गामसुराश्च निष्पासुलद्धकाः आठकाश्चणकाश्चैव गणाः सप्तदश स्मृताः इत्येता ओषधीनान्दुग्राम्याणां चादयः पुरा ओषध्यो जज्ञाश्चैव ग्राम्यारण्याश्च ग्राम्या दुर्दश व्रीषयश्च यवाश्चैव गोधूमा अनवस्थिराः प्रियङ्गुसप्तमाह्येते अष्टमास्तु कुलद्धकाः श्यामाकास्त्वधनीवारा यत्तिलास गवेद्धुकाः कुरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये ग्राम्यारण्या स्मृदाह्येदा चतुर्दश यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः ततः स तासां वृद्ध्यर्थं ब्रह्मा स्वयं भूर्भगवान्हस्तसिद्धिं च कर्मजाम् ततः प्रभृत्यधौषध्यकृष्टपच्यास्तु जज्ञिरे संसिद्धायान्दुवार्तायां ततस्तासां स्वयं प्रभुः मर्यादां स्थापयामास यथा न्यायं यथा वर्णानामाश्रमाणां च धर्मान् धर्मभृदां वर लोकानां सर्ववर्णानां सम्यग् धर्मार्थपालिनाम् प्राजापत्यं ब्राह्मणानां स्मृदं स्थानं क्रियावतां स्थानमैन्द्रं क्षत्रियाणाम् संग्रामेश्वपलायिनां वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्ततां गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तताम् अष्टाशीतिसहस्राणां वृषीणा मूर्ध्वर्यदशाम् स्मृदं तेषां तु यत्स्थानं तदेव गुरुवासिनां सप्तर्षोणान्दु यत्स्थानं स्मृतं तद्वैवनौकसां प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् योगिनाम योगिनाममृतं स्थानमिति वैस्तानकल्पना इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकरणे एको नः पञ्चदशध्यायः ओ